स्वस्ति न इन्द्रो वृद्धश्रवास्वस्ति नः पूषा विश्ववेदा स्वस्ति नस्तार्क्ष्यो अरिष्टमेमि स्वस्ति नो बृहस्पत्यर्दधातु स्वस्ति न इन्द्रो वृद्ध धश्रवाः स्वस्ति नः पूषा विश्ववेदा स्वस्ति नस्तार्क्ष्यो अरिष्टमेमि स्वस्ति इन्द्रो वृद्धश्रवा नः पूषा विश्ववेदा स्वस्ति नस्तार्क्ष्यो अरिष्टमेमि स्वस्ति